गरुडपुराणम् आचारकाण्डम् अध्यायम् ट्वेण्टि एयट् सूद उवाच गोपालपूजाम् वक्ष्यामि भुक्तिमुक्तिप्रदायिनीं द्वारे दादा विधाता च गङ्गायमुनया सह शङ्कपद्मनिधि चैव सारङ्गशरभक्ष्रिया पूर्वे द्वौ दक्षे चण्डप्रचण्डकौ पश्चिमे बलप्रबलौ जयश्च विजयो यजेद उत्तरे श्रीश्चतुर्द्वारि गणो दुर्गासरस्वती क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् सिद्धो गुरुर्नलपूवरम् कोणे भगवतं यजेद पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेद् ततो विष्णुपरीवारम् मध्ये शक्तिं च कूर्मकम् अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्निदः ऐश्वर्यं वायुपूर्वकं च प्रकाशात्मानमुत्तरे सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे यजेत्कम् काकतत्त्वकं विद्या तत्त्वं वरन्दत्वं सूर्येन्दुवन्निमण्डलम् विमलाध्यासनम् च प्राच्यां श्रीं ह्रीं प्रपूजयेद गोपीजनवल्लभाय स्वाहान्तो मनुरुच्य दे अङ्गीयधा चक्रं च सुचक्रं च विचक्रम् च तथैव च त्रैलोक्य रक्षकम् चक्रमासुराजि सुदर्शनम् हृदादि पूर्वपौणेषु अस्त्रम् चक्रिम् च पूर्वदः रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि लक्ष्मणा मित्रविन्दा जाम्भवत्या सुशीलया शङ्खचक्र ददा पद्मम् मुसलम् खड्गम्भशाङ्कुश्यम् प्राच्यां श्रीवत्सम् कौस्तुभं यजेद मुकुडम्बलमालाम् च ऐन्द्राद्यान् ध्वजमुख्यकान् कोमोदाद्यान् विश्वक्सेन श्रिया कृष्णं सहार्चयेद जप्या पूजनात् च सर्वान् कामानवान् पुयाद इति श्री गारूडे महापूर्णे आचार्यकाण्डे श्रीगोपालपूजानिरूपणम् नामाष्टाविंशोऽध्यायः ओम्